नारदपुराणं पूर्वार्थम् अध्यायम् एक्ति सूत उवाच श्रुत्वा तु नारदो विप्राक्कुमारवचनं मुनिः यत्पप्रच्च पुनस्तच्च युष्मभ्यं प्रवदाम्यहं कार्तवीर्यस्य कवचं तथा हनुमतोऽपि च चरितं च श्रुत्वा भूयो ब्रवीद्वजः नारद उवाच साधु साधु मुनिश्रेष्ठत्वयादिकरुणात्मनां श्राविदं चरितं पुण्यं शिवस्य च हनूमदः तन्द्रास्यांस्य क्रमप्राप्तं कथनीयं च यत्त्वया तत्प्रब्रूहि महाभाग किम् किं वरा सनत्कुमार उवाच अथ वक्ष्ये कृष्णमन्त्रान्भुक्तिमुक्तिफलप्रदान् ब्रह्माद्या यान् समाराध्यसृष्ट्यादिकरणे क्षमाः कामकृष्णपदं नदं गोविन्दं च तथाविधम् सुन्दरी अष्टादशार्नो अष्टादशार्णो मन्त्रोऽयं दुर्गाधिष्ठादृदैवतः नारदोऽस्य मुनिश्चन्दो गायत्री देवदा पुनः श्रीकृष्णः कृष्ण च कामो बीजं प्रकीर्तितं स्वाहा शक्तिर्नियोगस्तु चतुर्वर्गप्रसिद्धये ऋषिं शिरसि वक्त्रे दु शन्दश्च कृदि देवतां गुह्ये बीजं पदोशक्तिम् न्यस्येत्साधकसत्तमः युगेव दाब्धि निगमैर्द्वाभ्यां वर्णैर्मनोद्भवैः पञ्चाङ्गानि प्रविण्यस्य तत्त्वन्यासं समाचरेत हृदन्तिमादिकान्तार्णमपराद्यानि चात्मने मत्यन्तानि च तत्त्वानि जीवाद्यानिन्यस्येत्क्रमाद् जीवं प्राणमदिमहङ्कारं मनस्तथैव च शब्दं स्पर्शं रूपरसौगन्धं श्रोत्रं त्वचं तथा नेत्रं च रसनाङ्घ्राणम् वाचम् पाणिम् पदेन्द्रियम् पायुं शिश्नमधाकाश्यम् वायुं वह्निम् जलं महीम् जीवं प्राणं च सर्वागे मत्यादि हृदयम् हृदि मूर्धास्य हृत् गुह्यपादेष्वधशब्दादिकान्यसेद् कर्णादिस्वस्वस्थानेषु श्रोत्रादीनीन्द्रियाणि च तथा वागादीन्द्रियाणि स्वस्वस्थानेषु विन्यस्येद् मोधस्य हृद्गुह्य पादेष्वाकाशादीन्यस्येत्तदः हृत्पुण्डरीकमर्केन्दुह्नि वा बिम्बान्यनुक्रमाद्विषष्ट्यष्टदशकलाव्याप्तानि च तथा मदः भूदाष्टाम् गाक्षिपदगैर्वर्णै न्यसे धृदि अध आकाशादिस्थलेषु वासुदेवादिकांस्ततः वासुदेवः सङ्कर्षणप्रद्युम्नश्चानिरुद्धकः नारायणश्चक्रमशः परमेष्ट्यादिभिर्युदाः परमेष्टि पुमांश्चौ च विश्वनिवृत्तिसर्वकाः श्वेतानि लाज्ञ्यम्बुभूमिवर्णै प्राग्वत्प्रविण्यसेद स्वबीजाद्यं कोपतत्त्वं नृसिंहं व्यापकेन च सर्वाङ्गे तत्त्वन्यासोऽयमीरिदः मकाराद्या आद्यवर्णाः सर्वे स्युश्चन्द्रभूषिताः वासुदेवातिका ज्ञेया ञेन्ताः साधकसत्तमैः तदकृत्वा पूरकुम्भकरेचकैः चतुर्भिषड्भिर्द्वाभ्यां च मूलमन्त्रेण मन्त्रविद केजिदाहुरिहाचार्या प्राणाह्यामोत्तरं पुनः पीडन्यासंविधाया धन्यासानन्यान् समाचरेद दशतत्त्वादिविन्यस्य वक्ष्यमाणविधानदः मूर्तिपञ्चरनामानं पूर्वोक्तं विन्यस्येद्बुधः सर्वाङ्गे व्यापकं कृत्वा किरीडमनुना सुधीः तदस्तारपुडं मन्त्रं व्यापय्य करयोस्त्रिशः पञ्चाङ्गुलीषु करयोः पञ्चाङ्गं विन्यस्येत्तदः त्रिसो मूलेन मूर्धादिपादान्तं व्यापकं न्यसेद सकृद्व्यापय्यतारेण मन्द्रन्यासं ततश्चरेद शिरो ललाडिभ्रौ मध्ये कर्णयोश्चक्षुषोस्तद्धा प्राणयोर्वदने कण्ठे हृदिना भौ तथा पुनः कट्यां लिङ्गे जानुनोश्च पादयोर्विन्यस्येत्क्रमाद् हृदन्तान्मन्द्रवर्णांश्च ततो मूर्ध्नि ध्रुवं न्यसेद् पुनर्नयनयोरास्ये हृदि गुह्ये च पादयोः विन्यसे हृदयान्तानि मनोः च भूयो मुन्याधिकं न्यस्य पञ्चाङ्गम् पूर्ववन्यसेद् अथवक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम् यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः अणिमाद्यष्टसिद्धीनामीश्वरस्यान्नसंशयः यस्याराधनतो मन्त्रीकृष्णः संनिध्यतां व्रजेत् ताराद्याभिर्व्याहृदिभिः सम्पुडं विन्यस्येन्मनुम् मन्त्रेण पुटितांश्चापि प्रणवाद्यांस्तदो न्यसेद गायत्र्या पुटुतं मन्त्रं विन्यस्येन्मादृकास्थले मन्त्रेण पुटितां तां च गायत्रीं विन्यस्येत् क्रमाद मादृका पुटितं मूलं विन्यस्येत् साधकोत्तमः मूलेन पुटितां चैव मातृकां विन्यस्येत्क्रमाद् तृचं न मातृका वर्णान् पूर्वं तत्तत् ता, ता, स्थले सुधीः विन्यस्य न्यासष्टकं च सोटान्यासोयमीरिदः अनेन न्यासवर्येण साक्षात् कृष्णसमो भवेत् न्यासेन पुदितं दृष्ट्वा सिद्धगन्धर्वकिन्नराः देवा अपि नमं त्येनं किं पुनर्मानवा भुवि सुदर्शनस्य मन्द्रेण कुर्यादिग्बन्धनं तदः देवं ध्यायन् स्वहृदये सर्वाभीष्टप्रदायकम् उद्फुल्लकुसुमभ्रातनम्रशाखैर्वरद्रुमैः सस्मेयमञ्जरी वृन्दवल्लरीवेष्टितैः शुभैः गलत्परागधूलिभिः सुरभिकृददिङ्मुखः स्मरेचिशिरिदं वृन्दावनम् मन्द्री समाहिदः उन्मीलन्नवकं जालिविकलन्मधुसञ्जयैः लुग्धान्धकरणैर्गुञ्जद्विरेफपडलैः शुभम् मरालपरभृकीरकपोदनिकरैर्मुहुः मुखरी मुखरीकृतमानृत्यन्मयूरकुलमञ्जुलम् कालुन्द्या लोलकल्लोलविप्रुषैर्मन्दवाहिभिः उन्निद्राम्बुरुहव्राजरजोभिर्धुसरैशिवैः प्रदीप्तस्मरैर्गोष्ठसुन्दरी मृदुवाससां विलोलनपहैः संसेविदं वात्तैर्निरन्तरं स्मरेत्तदन्ते गीर्वाणभूरुहं सुमनोहरं तदद्ध स्वर्णवेद्यां च रत्नपीठमनुत्तमम् रत्नकुट्टिमपीठेस्मिन्नरुणं कमलं स्मरेत् अष्टपत्रं च तन्मध्ये मुकुन्दं सस्मरेत्थितम् फुलेन्द्रीवरहान्तं के च केकिबर्हा वतं सकं पीतां शुकं चन्द्रमुखम् सरसीरुहनेत्रकम् कौस्तुभोद्भासिताङ्गं च श्रीवत्साङ्गं सुभूषिदं व्रजस्त्रिनेत्रकमलाभ्यर्चितं गोगणावृदम् गोपवृन्दयुदं वंशीं वादयन्तं स्मरेत्सुधीः एवं ध्यात्वा जपेदा वयुदद्विदयम्बुधः जुहूयादरुणाम्भोजैस्तद्दशांशम् समाहितः जपेत् पश्चान्मन्त्रसिद्ध्यै भूतलक्षम् समाहिदः अरुणैः कमलैहुत्वा सर्वसिद्धीश्वरो भवेद् पूर्वोक्ते वैष्णवे पीठे मूर्तिं सङ्कल्प्य मूलधः तस्या मावाह्य चाभ्यार्चेद् गोपीजनमनोहरं मुके वेणुं समभ्यर्च्य वनमालां च कौस्तुभम् श्रीवत्सं च हृदि प्रार्थ्य ततः पुष्पाञ्जलिं क्षिपेद तदश्वेदां च तुलसीं शुक्लचन्दनपङ्गिलां रक्रां च तुलसीं रक्रचन्दनाक्रां क्रसात्सुधीः अर्पयेद्दक्षिणे जद्वयमश्वादियुग्मकम् हयमारद्वयेनैव हृदि मूर्ध्नि तथा पुनः पद्मद्वयं च विधिवत्तदः शीर्षे समर्पयेत् तुलसीद्वयमम्भोजद्वयमश्वारियुग्मकं ततः सर्वाणि पुष्पाणि सर्वाङ्गेषु समर्पयेत् दक्षिणे वासुदेवाख्यं स्वच्छं चैतन्यमव्ययं वामे च रुक्मिणीं तदून्नित्यां रक्तां रजो गुणां एवं सम्पूज्य गोपालं कुर्यादावरणार्चनं यजेदाम सुधामौ च वसुधामं च किङ्गिनी पूर्वाद्या शासु दामाद्या ञ्मोन्दध्रुवादिकाः अग्निनैहृदि वाय्वीशकोणेषु हृदयादिकानि समभ्यर्च्य समभ्यर्च्यपत्रेषु महिषीर्यजेद् रुक्मिणी सत्यभामा च नाग्नजित्यभिधा पुनः सुविन्दामित्रविन्दा च लक्ष्मणा चर्क्षजाततः सुचीला च लसद्रम्यचित्रिदाम्बरभूषणा तदो यजेदलाग्रेषु वसुदेवं च देवकीम् नन्दगोपं यशोदां च बलभद्रं सुभद्रिकां गोपानू गोपीश्च गोविन्दविलीनमधिलोचनान् ज्ञानमुद्राभयकरौ पितरौ पितपाण्डुरौ दिव्यमालाम्बराले बभूषणे मादरौ पुनः दारयं द्यौ चरुं चैव पायसीं पूर्णपात्रिकाम् हरुणश्यामले हारमणिकुन्दलमण्डिते बलशङ्खेन्दुधवलो मुसलं लाङ्गलं दधत फाला नीलवासा हलवानेककुण्डलः कलाया श्यामला भद्रा सुभद्रा भद्रभूषणा वराभययुतापीवसनारूढयौवना वेणुवीणा हेमयष्ठी शङ्खशृङ्गादिपाणयः गोपागोप्यश्च विविधप्राभृतान्नकराम्बुजाः मन्दारदींश्च तद्बाह्ये पूजयेत् कल्पपादपान् मन्दारश्च तथा सन्तानको वै पारिजातकः कल्पद्रुमस्तदपक् चद्वारिचन्दनसंज्ञकः मध्ये दिक्षु समभ्यर्च्य बहिश्चक्रादिकन्यजेद् तदस्त्राणि निजसम्पूज्य यजेद् कृष्णाष्टकेन च कृष्णं च वासुदेवं च देवकीनन्दनं तथा नारायणं यदुश्रेष्ठम् ष्णेयं धर्मपालकम् असुराक्रान्तभूभारहारिणं पूजयेत्तदः येभिरावरणैपूजा कर्तव्याः सुखैरिणः संसारसागरोत्तीर्थै सर्वकामाप्तये बुधः एवम् पूजादिभिसिद्धा भवद्वैश्रवणो यमः त्रिकालपूजनं चास्य वक्ष्ये सर्वार्धसिद्धिदं श्रीमदुद्यानसंविधिम भूरत्नमण्डपे लत्कल्पद्रुमाधस्तरत्नाब्जपीठसंस्थितम् सुत्रामरत्नसङ्काशं गूढस्निग्धालकं शिशुं चलत्कनकुण्डलोल्लसितचारु गण्डस्थलं सुकोणधरमद्भुतस्मितमुखा मुखा सुन्दरम् स्फुरद्विमलरत्नयुकनक सूत्रनद्धं दधसुवर्णपरिमण्डितं सुभगपौण्डरीकं नखम् समुद्धूसरोरस्थले धेनुधूल्य सुपुष्टाङ्गमष्टापदा कल्पदीप्तं कडीलस्थले चारुजङ्कान्दयुग्मं पिनद्धम् पुनत्किङ्किणी जालदाम्ना हसन्दं हसद्वन्धू जीवप्रसूनप्रभापाणिपादाम्बुजोदारकान्त्या दधानं करो दक्षिणे पायसान्न सुहैयङ्गवीनं तथा वामहस्ते लसद्गोपगोपीगवां वृन्दमध्ये स्थितं वासवाद्यैः सुरैरर्चितान्ध्रिं महाधारभूतामरारादियुद्धांस्तदःपुदनादीन् निहन्तुं प्रवृत्तम् एवं ध्यात्वार्चयेद्देवं पूर्ववस्तु स्थिरमानसः दध्नागुडेन नैवेद्यं दत्त्वा दशशतं जपेद मध्यं दिने यजे देवं विशिष्यरूपधारिणं नारदाद्यर्मुनिगणैः सुरवृन्दैश्च पूजितं लक्षोपगोपी गवां सान्द्रमेकप्रभं सुन्दराङ्गं शिखण्डि सदा पूर्ण लस्सञ्चिल्लिकं पूर्णचन्द्राननं चलत्कुण्डलोल्लासि गण्डस्थलश्रीभरं सुन्दरं मन्दहासं सुनासं सुपार्तस्वराम्भाम्बरम् दिव्यभूषम् कोणकिङ्गिणी जालमत्तानुलेपनम् वेणुन्दमन्दम् स्वकरे दधानं सव्येदरं यष्टिमुदारवेष्ठम् दक्षे तथैवेप्सिददानदक्षम् ध्यात्वार्चयेन्नन्दज मिन्दिराक्त्यै एवं ध्यात्वार्चयेत् कृष्णं पूर्ववद्वैष्णवोत्तमः अपूप पायसान्नाद्यैर्नैवेद्यं परिकल्पयेद् हुत्वा चाष्टोत्तरशतम् अयोर्नैः सर्पिषाप्लुतैः स्वस्वदिक्षु बलिं दद्याद्दिशेदाचमनं तदः अष्टोत्तरसहस्रं च प्रजापेन्मन्त्रमुत्तमम् अह्नो मध्ये यजे देवं ह्यकृष्णं वैष्णवोत्तमः देवा सर्वे नमस्यन्ति लोकानां वल्लभो नरः मेधायुश्रीकान्ति युक्तः पुत्रैः पौत्रैश्च वर्धते काल तृतीयकालपूजायामस्ति कालविकल्पना सायाह्ने निशिवेत्यत्र वदन्त्येके विपश्चिदः दशाक्षरेण चेद्रात्रौ सायान्येष्टादशार्णदः उभयीमुभयेनैव कुर्यादित्यपरे जगुः सायान्ये, कुर्या सायान्ये द्वारवत्यां तु चित्रोद्यानोपशोभिदे अष्टसाहस्रसङ्ख्यादैर्भवनैरुपमण्डिते हंस सारससङ्कीर्णकमलोत्पलशालिभिः सरोभिर्नीलाम्भोभिः परिदे भवनोत्तमे उद्यप्रद्योदनोद्योदद्युतौ श्रीमणिमण्डले हेमाम्भोजासनसीनं कृष्णं त्रैलोक्यमोहनम् मुनिवृन्दै परिवृतमात्मतत्त्वविनिर्णये तेभ्यो मुनिभ्यः स्वं धाम दिशं तं परमक्षरम् उन्निद्रें धीवरश्यामं पद्मपत्रायते क्षणं स्निग्धं कुन्तलसम्भिन्नकिरीडवनमालिनम् चारुप्रसन्नवदनं स्फुरन् मकरकुण्डलं श्रीवत्सवक्षसम्भ्राजत् कौस्तुभं सुमनोहरं सुमनोहरम् काश्मीरकपिशोरस्कम्पितकौशेयवाससम् हरकेयूर कटककडि सूत्रै सूत्रैरलङ्कृतम् हृदविश्वम्भरा भूरिभारं मुदितमानसं शङ्खचक्रगदापद्मराजद्भुज चतुष्टयं एवं ध्यात्वर्चयन्मन्त्री स्यादङ्कैः प्रथमावृतिः द्वितीया महिषीभिस्तुतृदीयां समर्चयेद नारदं पर्वतं जिष्णुं निशद्धोद्धवदारुपान् विश्वक्षेनं च शैनेयं दिष्वग्रे विनता सुतं लोकपालैश्च पूजये पूजयेद्वैष्णवोत्तमः एवं सम्पूज्य विधिवत् पायसं विनिवेदयेद् तर्पयित्वा खण्डमिश्र दुग्धबुद्ध्या जलैरिह जपेदष्टशतं मन्त्री भावयन् पुरुषोत्तमं पूजास्सु होमं सर्वासु कुर्यान्मध्यं दिने आसनादर्क्यपर्यन्तं कृत्वास्तुत्वा स्तुत्वा न मेत्सुधीः समर्थात्मानमुद्वास्य स्वीयहृत्सरसीरुहे विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत् सायाह्ने वासुदेवं यो नित्यमेवं समर्चयेद सर्वान् कामानवाप्यां दे सयादि परमां गतिं रात्रौ चेन्मदनाक्रान्तचेदस्सं नन्दनन्दनं यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगं विकसत् कुन्दकह्लादमल्लिकाकुसुमोद्गतैः रजोभिर्धुसरैर्मन्दमारुतै शिशिरीकृते उन्मीलन् नवकैरवालिविगलन्माध्वी कलदान्तरं ब्राह्म्यन्मत् तमिलिङ्गभ्राम्यन्मत् मिलिन्दगीतललिते सन्मल्लिकोजृम्भीते पीयूषां शुकरैर्विशालिदहरिप्रान्ते स्मरोद्दीपने पालिन्दी पुलिनाङ्गणे स्मितमुखं वेणुं रणन्दं मुहुः अन्तस्तोय लस्सन्नवाम्बुधडा सङ्घट्टकारद्विषं सञ्चच्चिल्लिगमम्बुजायतदृश्यं बिम्बाधरं सुन्दरं मायूरच्छदबद्धमौलिविलसद्धम्मिल्लमालं दिव्यकुण्डलरत्नरश्मिविलसद्गण्डद्वयोद्भाषितम् काञ्चीनूपुरहार कङ्कणलसत्केयूरभूषान्वितं गोपीनां द्वितयान्तरे सुललितं वन्यप्रसूनस्रजम् अन्योन्यं विनिबद्धगोपदयिता दोर्वल्लिवीदं लसद्रासकीडनलोलुपं मनसि जाक्रान्तं मुकुन्दम् भवेद् विविधश्रुतिभिन्नमनोज्ञतरस्वरसप्तकमूर्छनतान्नगणैः भ्रममाण ममभिरुदारमणि स्फुटमण्डनसिञ्चिदचारुतनुम् इतरेतरबद्धकरप्रमदागणकल्पितरास विहारविधौ मणि शङ्कुगमप्यमुना वपुषा बहुधा विहिदस्वकदिव्यधनुं एवं ध्यात्वर्चयेन्मन्त्री स्यादङ्कायः प्रथमावृतिः श्रीकामः सस्वराद्यानि कलाब्जैर्वैष्णवोत्तमः यजेत् केशव कीर्त्यादिमिथुनानि च षोडश इन्द्राद्यानपि वज्रादीन् पूजयेत् तदनन्तरम् पृथु सुवृद्धं मसृणं विधस्ति कौ विनिकन्यशङ्गुम् आक्रम्य पद्भ्यामिदरेतरैस्तु हस्तैर्भ्रमोऽयं खलु रासगोष्ठी स पूज्यैवं च पयः सा ससिधो फलसर्पिषा नैवेद्यमर्चयित्वादु चषकैर्नृपसङ्ख्यकैः सदं पा पप्ते मन्द्रिमिथुनेष्वर्पयेत्प्रमाद विधाय पूर्ववच्छर्षं सहस्रं प्रजपेन्मनुं स्थित्वा नत्वा जसम् प्रार्थ्य समापयेद एवं व्यः कृष्णं स सस्मृद्धेः पदम् भवेद अणिमाद्यष्टसिद्धीनामीश्वरस्यान्नसंशयः भुक् त्वेह विविधान् भोगानन्दे विष्णुपदं व्रजेद् एवं पूजादिभिसिद्धे मनौ काम्यानि साधयेद् अष्टाविंशतिवारं वा त्रिकालं पूजयेत्सुधीः स्वकालविहितान्भूय परिवारांश्च तर्पयेद् प्रादर्दध्ना गुडाकृतेन मध्याह्ने पयः सा पुनः नवनीतयुतेनाथ सायाह्ने तर्पयेत् पुनः स शीतोपलमिश्रेण पयसा वैष्णवोत्तमः तर्पयामि पदं योज्यं मन्त्रान्धेष्वेषु नामसु द्वितीयान्धेषु तु पुनः पूजाशेषं समापयेद् अभ्युक्ष्य तत्प्रसादाद्भिरात्मानं प्रभेदभः तत्तृतस्तमृप्तस्तमधोद्वास्य तन्मय प्रजपेन्मनुम् अधद्रव्याणि काम्येषु प्रोच्यन्ते तर्पणेषु तानि प्रोक्तविधानानामाश्रित्यान्यतमं भजेद पायसं दाधिकं चाज्यं गौडान्नं कृसरम्पयः दधीनिकदलीमोचा चिञ्च रजस्वला तथा अपूपामोदकालाजा पृथुका नवनिदगम् द्रव्यषोडशकं ह्यदत्कथितं पद्मजादिभिः राजान्दे पृथुकं प्राच्य समर्प्य च सितो फलं चतुःसप्ततिवारं ह्यप्रादरेवं प्रतर्पयेद् ध्यात्वा कृष्णपदं मन्त्री मण्डलादिष्टमाप्नुयात् धारोष्णपक्कपयसा नवनीदं दधीनि च दौग्धाम्रमाज्यं मत्स्यं डीक्षौद्रं कीलालमेव च पूजयेन्नवभिर्द्रव्यैप्रत्येकं रविसङ्ख्यया एवमाष्टोत्तरशतं सङ्ख्याकं तर्पणं पुनः च कुर्याद्वैष्णवश्रेष्ठपूर्वोक्तं फलमाप्नुयात् किं बहूक्तेन सर्वेष्टदायकं तर्पणं त्विधं सशितोपलधारोष्णदुग्धबुद्ध्या जलेन वै कृष्णं प्रतपर्यन् ग्रामं व्रजन् प्राप्नोति साधकः धनवस्त्राणि भोज्यं च परिवारगणैः सह यावत्सं तार्पयेन्मन्त्रीं तावत्सङ्ख्यं जपेन्मनुं तर्पणेनैव कार्याणि साधयेदखिलान्यपि काम्यहोममधोवध्ये साधकानां हिताय च श्रीपुष्पैर्जुहुयान्मन्त्री श्रिय मि चन्निन्दितां सा जनान्येन जुहुयात् कृदान्नस्य समृद्धये वन्यपुष्पैर्द्विजाञ्जाती पुष्पैश्च पृथिवीपतीन् असिधैकुसुमैर्वैश्यान् शूद्रान् नीलोत्पलैस्तथा वशयेल्लवणैः जनं गोशालासु कृतो होमः पायसेन ससर्पिष गवां शान्तिं करोत्याशु गोपालो गोकुलेश्वरः शिक्षावेशधरं कृष्णं किङ्गिणीजालशोभिदं ज्ञात्वा प्रदर्पयेन्मन्त्री दुग्धबुद्ध्याशुभैर्जलैः धनं धान्यं सुदान् कीर्तिं प्रेदस्तस्मै ददादिसः ब्रह्म वृक्षसमिद्धिर्वा कुशैर्वा तिलतण्डुलैः जुहोयादयुदं मन्त्री त्रिमध्वाकृदैर्हुदाशने वशयेद्ब्राह्मणांश्चाध राजवृक्षसमुद्भवैः प्रसूनैः क्षत्रियान्वैश्यान् कुरङ्ग कुसुमैस्तथा पाडलोद्धैश्च कुसुमैर्वशयेदन्तिमान् सुधीः श्वेतपद्मैरक्तपद्मै पत्माराक्न, क्रमाद शम्बकैः पाडलैक्रमाद हुत्वा युधं त्रिमध्वाकृतैर्वशयेत्तद्वराङ्गनाः नित्यं हयारिकुसुमौर्निशीधेत्त्रिमधुप्लुदैः वरस्त्रिर्वशयेस्प्राज्ञः सम्यग् धृत्वा दिनाष्टकम् अयुधत्रृदयं रात्रौ सिद्धार्थैस्त्रिमधुप्लुतैः प्रत्यहं जुह्वदो मासात् सुरेशोऽपि वशी भवेद आहृत्य पल्लवीवस्त्राण्यारूढं नीपभूरुहे स्मरेत्कृष्णं जपे द्रात्रौ सहस्रं केन्दूहात् सुधीः हठादाकर्षये चीक्रमुर्वशीमपि साधकः बहुना किमि होक्तेन मन्द्रोऽयं सर्ववश्यकृद रहस्यं परमं चाधवक्ष्य मोक्षप्रदं नृणां ध्यायेत्स्व हृत्सरसिजे देवगीनन्दनं विभुम् श्रीमत्कुन्देन्दुगौरं सरसिजनयनं शङ्खचक्रे गदाब्जे बिभ्राणं हस्तपद्मैर्नवनलिनलसमालयादीप्यमानं वं देवेद्यं मुनीन्द्रै कणिकमुनिलसदिव्यभूषाभिरामं दिव्याङ्गालेपभासम् सकलभयहरं पिदवस्त्रं नुरारिं एवं ध्यात्वा उमां सं स्फुटहृदयसरोजासनासीनमाद्यं सान्ध्राम्भोदाच्चिम्बा बिम्बाद्भुतकनकनिभं सञ्चपेद्दर्कलक्षं मन्वोरेकम् द्वितारान्तरिदमधः पुने दर्कसाहस्रमिधः क्षीरिधृधर्यधोक्तैः समधुहृदसिनाधवा पायसेना एवं लोकेश्वराराध्यं कृष्णं भुजे ्यायन्ननुदिनं मन्त्री त्रिसहस्रं जपेन्मनुयान्नोक्तेन विधिना सम्पूज्य हवनं पुनः कृत्वा पूर्वोक्तविधिना मन्त्री तद्गतमानसः एवं योपचरे नित्यं विद्वान् गोपालनन्दनं समुत्तीर्य भवां बोधिम् यादिपरमं पदम् मध्यकरणेषु बाह्येष्वनलपुरपुडस्यालिके कर्णिकायां कन्दर्पं साध्ययुक्तं विवरगदषडर्णद्विषक्ते शरेषु शक्तिश्रीपूर्विकाणिद्विन लिपिमनोरक्षराणिच्छदानां मध्ये वर्णान् दशान्धो दशलिपिमनुवर्यस्य वैकैकशोब्जम् का भूसत्मनाभिवृदमस्रगमन्मथेन घोरोचना विलिखितं पट्टे पटेहिरण्यरजिदे गुलिगीकृतं तद्गोपालयन्द्रमखिलार्थदमेददुःखम् सा संयादसिक्तमभिजप्तमिदं महद्भिर्धार्यं जगत्त्रयवशीकरणैकदक्षं रक्षायशुतमही धनधान्यलक्ष्मी सौभाग्यलिप्सुभिरजस्र मनर्घ्यवीर्यं स्मरस्त्रिविक्रमाक्रान्तश्चाक्रीष्ट्याय हृदित्यसौ षडक्षरोऽयं सम्प्रोक्तसर्वसिद्धिकरो मनुः क्रोडशान्दीन्दुवक्न्याढ्यो मायाबीजप्रकीर्तिदं गोविन्दभग्निचन्द्राढ्यो मनुश्रीबीजमीरिदम् आभ्यामष्टादशक्लीपस्याद्विंशत्यक्षरो मनुः शालग्रामे मणौ यन्त्रे नित्यं पूजाहरे कार्या न तु केवलभूतले यो भजन्ते कृष्णं सयादि परमां विंशार्णस्य मुनिर्ब्रह्मा गायत्री छन्द ईजिदं कृष्णश्च देवता कामो बीजं शक्तिर्द्विढो बुधैः रामाग्निवेदवेदाब्धिर्नेत्रार्णैरङ्गकल्पनं मूलेन व्यापकं कृत्वा मनुना पुडितानथ मातृकार्णान्यसेत् तत्तस्थन सुसमिदशतवा मूल न व्यापक चरेत मद्रन संदुदेवता भाविद्ध शीर्षे लाडेभ्रू मध्य नेत्रो कर्णयोस्त न सोक्रे जिबुके कंठे दौर्मूल के, के हृदय उदरे उदरेणाभिदेश्ये च लिङ्गे मूलसरोरुहे कट्यां जान्वोर्जङ्कयोश्च गुल्फयो पादयो क्रमाद न्यस्ये दृदन्तान्मन्त्राणां सृष्टिन्यासोऽयमीरिदः हृदये चोदरेणाभौ लिङ्गे मूलसरोरुहे कर्प्यां जान्वोर्जं कयोश्च गुल्फयोः पादयोस्तथा मूर्ध्नि कपोले भ्रूमध्ये नेत्रयोः कर्णयोर्नसोः वदने चिबुगे कण्ठे दोर्मूले विन्यसे क्रमाद नमोदान्मन्द्रवर्णांश्च स्थिधिन्यासोऽयमीरिदः पादर्गुफयोचोजुन कट्यामूल ध्वज नौ जठरे हृदय पुनः दुर्मूल कंडदेशे चिबुके वदने नसोहो नो कर्णयोनेूमध्ये निडिले तथा मूर्ध्निन्यस्यन्मन्द्रवर्णान् संहाराख्योऽयमीरिदः पुनसृष्टिस्थितिन्यासौ विधाय वैष्णवोत्तमः मूर्ति पञ्चरनामानं विन्यसेत् पूर्ववर्ततः पुनषडङ्गं कृत्वा अध्यायेत् कृष्णं हृदम्बुजे स्वारवत्यां सहस्रार्क भास्वलैर्भवनोत्तमैः अनल्पैकल्पवृक्षैश्च परीरेमणिमण्डपे ज्वलद्रत्नमयस्तम्भद्वारतोरण कुड्यके फुल्लप्रफुल्लसञ्चित्र वितानालम्बिमौक्तिके पद्मरागस्थली राजद्रत्न अनारद शङ्खैश्चमध्यदः अनारदगलद्रत्नधाराढ्यस्वस्थस्तरो रथः रत्नप्रदीपावलिभिप्रदीपितदिगन्धरे उद्यदादित्यसङ्काश्चमणिंहासनाम्बुजे समासीनोच्युतोऽध्येयोद्धृत आटकसन्निभः समानोदितचन्द्रार्कतडित्कोडिसमद्युदिः सर्वाङ्गसुन्दरसौम्यसर्वाभरणभूषिदः पीदवास्सा शङ्खचक्र गदाम्भो जलसत्करः अनाहदोच्चलद्रत्नधारौखकलश्यं दधारौखकलश्यं स्पृश्यन् वामपादां पल्लवचिवं वामपादाम्बुजाग्रेणमुष्णदा पल्लवच्छिवं रुक्मिणीसत्यभामेश्य मूर्ध्निरत्नौखधारया सिं चन्द्यौ दक्षवामस्ते स्वदोस्तकलशोद्धया नाग्नजिदिसुनन्दाज दिश्यन्तौ दिशन्त्यौ कलशौ तयोः ताभ्यां च दक्ष रत्न रत्नद्य समुद्धृत्य रत्नपूर्णौ खडौ तयोः जाम्बवदी सुशीला च दिशन्त्यौ दक्षवामके बहिषोडशसाहस्रसङ्ख्याका परितः प्रियाः ज्येह्याकनकरत्नौखधारायु कलशोज्ज्वलाः तद्बहिश्चाष्टनिधाय पूरयन्दो धनैर्धरां तद्बहिर्वृष्णय सर्वे पुरो वच्च स्वरादयः एवं ध्यात्वा जपे लक्ष अरुणैकमलैर्हृत्वा पीठे पूर्वोधिदे यजे दे विलिप्य गन्धपङ्घेन लिखे दष्टदलाम्बुजं कर्णिकायां च षड्कोणं ससाध्यं तत्र मन्मथं षिष्ठैस्तु सप्त दशभिरक्षरैर्वेष्टये स्वरं प्राग्रक्षोऽलकोणेषु श्रियं छिष्टेषु संविधम् षट्सु सन्धिषु षट्कर्णे केसरेषु त्रिशसृशः विलिखे के स्मरगायत्री मालामन्त्रं दलाष्टगे षडुषट् संलिख्य तद्बाह्ये व्यष्टयेन्मादृकाक्षरैः भूबिम्बं च लिखेद्बाह्ये भूग्रहं चदुरस्रं स्यादष्टवज्रविभूषितं ये दद्यन्तं काण्डकादिपट्टेष्वालिख्यपूर्ववदत् संस्कृतं धारयेद्यो वै शोर्च्यदे त्रिदशैरभि स्यात् गायत्री वामदेव तन्नो नङ्गप्रचोदयाद जप्या गोपाल गोपालमनूनां जनरञ्जिनी हृदयं कामदेवाय गेन्दं सर्वजनप्रियं, उक्त्वा सर्वजनान् देदु सम्मोहनपदं तथा ज्वलज्वल प्रज्वलेधि प्रोच्य सर्वजनस्य च हृदयं मम जब्रूयात् वर्षम् कुरुयुगं शिरः प्रोक्तो मदनमन्त्रोष्ट चत्वारिंशद्भिरक्षरैः जपादौ स्मरबीजाद्यो जगत्त्रयवशीकरः पीडप्राग्वत्समभ्यर्च्य मूर्तिसङ्कल्प्य मूलतः तत्रा वाह्याच्युदम्भक्त्या सकलीकृत्य पूजयेद आसनादिविभूशान्तम् पुनर्न्यासक्रमाद्यजेद सृष्टिं सिद्धिं षडङ्गं च किरीडं कुन्दलद्वयं शङ्कं चक्रं गदां पद्मं मालां श्रीवत् वत्स कौस्तु भौ गन्धपुष्पैः समभ्यर्थ्य मूलेन वैष्णवोत्तमः षट्कोणेषु षडङ्गानि दिग्दलेषु क्रमाद्येद् वासुदेवादिकान् कोणेषु दु शान्त्यादिकांस्तदः पत्राग्रगमहिष्योष्ठौ यजेत्साधकसत्तमः तदषोडशसहस्रं सकृदे प्रियाः इन्द्रनीलमुकुन्दांश्च करालानन्दकश्चपान् शङ्खपद्मौ तदपद्मान्निधि नष्टौ क्रमद्यद् तद्बहिर्लोकपालांश्च वज्राद्यानपिपूजयेद् एवं सप्तावृत्तिवृदं कृष्णमभ्यर्च्य चादराद प्रीणयेद्दधि खण्डाज्य मिश्रेणदुपयोऽम्ध सा दिव्योपचारं दत्वा धस्तुत्वा नत्वा जग उद्वासये स्वहृदये परिवार गणैः सहस्य न्यस्यात्मानं न्यास्या, समभ्यर्च्य तन्मयो विहरे सुधीः रत्नाभिषेक धाध्यानेध्या विंशत्यर्णाश्रुतेरिताः एवं यो भजते मन्त्रं स समृद्धेः पदं भवेद जप होमार्चनध्यानैर्योमनुं प्रजपेदमुं तद्वेश्म पूर्य रत्नैरवर्णधान्यैरनारदं पृथ्वी पृथ्वीकरे तस्य सर्वसस्य समाकुला पुत्रैर्मित्रैः सुसम्पन्नप्रयात्यन्ते पराङ्गतिं वाग्नावप्यर्च्य गोविन्दं शुक्लपुष्पैः स तण्डुलैः अज्याकैरयुधं भूत्वा भस्म तन्मूर्ध्नि धारयेद तस्यान्नादिसमृद्धि स्यादुषे सर्वयोषिदः रक्ताम्भो जैस्त्रिमध्वाक्दयर्पुनेर्लक्ष्यं समाहितः श्रिया तस्या इन्द्रमैश्वर्यं तृणलेशायदे ध्रुवम् स्त्रिमध्वाक्कदायिषुदै पुष्पैरष्टोत्तरसहस्रकं यो पुनेत्प्रत्यहमासत् पुरोधा नृपदेर्भवेद एवमादिप्रयोगांश्च साधयेन्मनुनामुना मन्द्रराजमधो वक्ष्ये दशार्णं सर्वसिद्धितं स्मृति सद्यान्विता साक्षिर्लोहितो जनवल्लभा पवनोऽग्निप्रियान्तोयं दशार्णो मन्द्र ईरिदः नारदोऽस्य मुनिश्चन्दो विराट् कृष्णोऽस्य देवता कामो बीजं चक्रिप्रोक्ता मनीषिभिः आचक्रं च विचक्रं च सुचक्रं तदनन्तरं त्रैलोक्यरक्षणं चक्रमसुरान्तकचक्रकं जयदैर्भण्डद्वयान्तैश्च चक्रैः पञ्चाङ्गकं मनोः ततस्तारबुडं मन्त्रं व्यापय्य करयोस्त्रिशः सेन्दून् हृदन्दान् मन्त्राणान् मन्त्रार्णान् प्रणवान्तरिधान्यसेदक्षाङ्गुष्ठा च वामाङ्गुष्ठान्तमङ्गुलिपर्वसो सृष्टिन्यासोऽयमुदिदस्तिदिन्यासोऽधुनोच्यते न्यसेद्वामकनिष्ठादिकनिष्ठान्तं स्थितौ सुधीः वामाङ्गुष्ठान्यस्य दक्षां गुष्ठान्तं संहृदौ तथा दा, संहृदिर्दोषसङ्खाद आरिणीपरिकीर्तिदा विद्याप्रदश्च सृष्ट्यन्धो वर्णिनां शुद्धचेदस्सां स्थित्यन्तः स्यात् गृहस्थानामेवं काम्यादिरूपदाह संहारान्ते मुनीन्द्राणां विरक्तानां च सर्वशः पुनस्तिक्रमेणार्णान् मनोरङ्गुलिशून्यसेद पुनश्चक्रैश्च पूर्वोक्तैः पञ्चाङ्गं करयोर्नसेद ततो मूलेन पुडिदान् माधृकार्णान् स बिन्दुकान् प्रणदसुधीः ततस्तारपुडं मूलं व्यापकत्वेन विन्यसेद संहारसृष्टिभेदेन दशतत्वानि विन्यसेद नमोन्दमूलमन्त्रार्ण पदायाम्यानि चात्मने मत्यन्तानि च तत्वानि पृथिव्याध्यानि चक्रमाद पृथ्वीजलं तथा वह्निर्वायुराकाशमेव च अहङ्कारो महत्तत्त्वं प्रकृतिं पुरुषं परं प्रवीण्य सेन्मस्तके च नेत्र यो श्रोत्रयोर्नसोः वदने हृदये न भौलिङ्गे जान्वोश्च पादयोः प्रणवान्तरिधान्वर्णान् हृदन्तान्विज्य सेन्मनोः सृष्टिन्यासोऽयमाख्यातस्थितिन्यासम् शृणुद्विजा हृदि नाभौध्वजे जाह्ो पादयोर्मस्तके पुनः नेत्र हो कर्णयोर्घ्राणे वदने विन्यस्येत् क्रमदपदो जाह्वोर्लिङ्गदेश्ये नाभौ हृदि मुख्ये नसौः कर्णयोर्नेत्रयोर्मूर्ध्नि संहराख्योऽयमिदः सृष्ट्यन्धो वर्णिनां न्यासस्तित्यन्धो गृहमेधिनां यदेर्वैराग्ययुक्तस्य संहारान्धप्रकीर्तिदः चतुर्धा वर्णिनां चैव गृहस्थानां च पञ्चथा यदीनां च त्रिधा न्यास प्रोक्तोऽयं क्रमदः शुभः के जिद्विरक्ते गृहगे संहरान्तं विदुर्बुधाः विभूतिपञ्जरं न्यासं कुर्यादिष्टाप्तये तदः मनोर्दशावृत्तिमयं कृष्णसान्निध्यकारकम् आधारे जध्वजेनाभौ हृदि कण्ठे मुकेशये पूर्वोश्च कन्धरायां च नाभौ भुक्षौ तद्धा हृदि स्तनयोः पार्श्वयो शोन्योर्मस्तकेवदने तद्धा नेत्रयोः कर्णयोर्ना स पुडयोश्च कपोलयोः एवं दक्षिणदोर्मु स सन्ध्यग्रेष्वङ्गुलीषु ज तत शिरसि तत्पूर्वाद्यांशास्सु स्वकलास्सु च दोष्णोस्कन्ध्नोश्चिरोक्ष्या कण्डहृज्जरेषु च मूलाधारे लिंगदेशे जानुनोः पादयोस्तथा श्रोत्रगण्ढां सवक्षोज पार्श्वलिङ्गेषु विन्यसेद पूर्वोर्जानवोर्जङ्कयोश्च पादयोर्विन्यस्येत्क्रमाद विभूति पञ्चराख्योऽयं न्यासर्वार्थसिद्धितः अनेन न्यासवर्येण साक्षात्कृष्णतनुर्भवेद मूर्ति पञ्चरनामानां न्यासं पूर्वोदिदं न्यसेद ततो दशाङ्गपञ्चाङ्गौ न्यासवर्यौ न्यसे क्रमाद हृदि मूर्ध्नि शिखायां च सर्वाङ्गे दिक्षु पार्श्वयोः कट्यां पृष्टे तदा मूर्ध्नि विन्यस्येद्वैष्णवोत्तमः पञ्चाङ्गानिन्यस्य भूयश्चक्रैः प्राग्वत्समाहितः अन्योऽप्यष्टादशर्णोक्तकर्तव्योन्यास संचयः ततः किरीटमन्त्रेण व्यापकं रचयेत् सुधीः वेणुबिल्वादिमुद्रांश्च दर्शयेत्साधकोत्तमः सुदर्शनस्य मन्त्रेण कुल्याद्दिग्बन्धनं ततः अन्नं गुष्ठाश्च ऋधवकरशाखा भवन्ति समाख्यादा शिरो तथा भवेद् अधोऽष्टा दुयामुष्टिः शिखा मुद्रे य मिरिद प्रसारिद पराङ्गुल्यो वर्म मुद्रे यमिरिता नाराजमुष्ट्या धृतबाहुयुग्मः अङ्गुष्ट तर्जन्युदिदो ध्वनिस्तु विश्वग्विमुक्ता कथितास्त्रमुद्रा यत्राक्षिणी तर्जनि मध्य मे कोष्ठे वामकरांगुष्टो लग्नस्तस्य कनिष्ठिका दक्षिणाङ्गुष्टसंसक्दा तत्कनिष्ठा प्रसारिता तर्जनी मध्यमानामा किञ्चित् सङ्कुच्य चालिदा वेणु मुद्रेयमुदिता सुगुप्ता प्रयसी हरेखे नोच्यन्ते तत्र सिद्धत्वान्माला श्रीवत्सकौस्तुभः वामाङ्गुष्टं समुद्रं तमवरपराङ्गुष्टकेनाथ बद्ध्वा संपीड्याग्र्यं च दक्षाङ्गुलिभिरपि च तां गाढं बद्ध्वा स्वकीये हृदय सरसिजे स्थापयेत् कामबीजं प्रोच्चार्यैषादु गोप्या सकलसुखकरी विल्वमुद्रा मुनीन्द्रैः कायेन मनसा वाचा यत्पापं समुपार्जितं मुद्रा, यत समु मुद्रा या सर्वं नाशमुपैष्यदि ध्यानं जपस्त्रिकालार्चाकार्या पूर्वोदिता मनोः सर्वेष्वेकक्रमप्रोक्तो दशार्णाष्ठादशार्णयोः एवं सिद्धे मनौ मं धीप्रयोगान् कर्तुमर्हति उद्दण्डबाहुदोर्दम्हधृदगोवर्धनाचलम् अन्यहस्ताङ्गुलिव्यक्तस्वर वंशार्पिदाननं ध्यायन् कृष्णं व्रजे चत्रं विना सुधीः वर्षवादाशनिभ्योऽपि भयं तस्य न जायते मोक मे दौकभ्रादाद्गदेन्द्रं तं स्मरन् पुनेद लो नैरयुधसंख्यैष्यादनावृष्टिर्न क्रीडन्तमर्कजादिरे मज्जनस्नापनादिभिः तच्चीकरजलासारैषिच्यमानं प्रिया जनैः ध्यात्वा युदम्पयसिक्तैः पुनेद्वानीरदर्पणैः वृष्टिर्भवत्य कालेऽपि मकदिनात्र संशयः सदाः मोहैरार्तस्य विस्फोटकज्वरादिभिः अमुमेव स्मरन्मूर्ध्नि जपेच्छान्दिर्भवेत् क्षणाद अथवा गरूढारूढं प्रद्युम्नबलसंयुधं निज्वरनिष्पिष्ठज्वराभीष्टुदमच्युदं ध्यात्वा मूर्ध्नि जपेन्मन्द्रं ज्वरमुक्तो भवेज्वरी ध्यात्वैवमग्नावभ्यर्च्य यथोक्तैश्चतुरङ्गुलैः जिहूयादमृदाखण्डैरयुदं ज्वरः शान्तये शिलिमुखविनिर्भिन्न भीष्मतापहरं हरिं ज्ञात्वा जपे स्पृशन्नार्तं पाणिभ्यां सन्दीपनायदतदं पुत्रं ध्यात्वा युदं पुनेद यथोक्तैरमृदाखण्डैरप मृत्यु निवृत्तये सपार्थं मृदपुत्रायार्पयन्तं च द्विजन्मनि सुधं ध्यात्वा जपे लक्षं पुत्रपौत्रादिवृधये पुत्रजीवफलैर्हुत्वा युधं मधुरसंप्लुतैः तत्काष्ठैरेधिदेवग्नौ सुधान् दीर्घायुषो लभेद् क्षीरदृग्ध्वादसम्पूर्णमभ्यर्च्य कलशं निशि प्रादत्व युधं नारी माभिषिञ्चेद् यवं कृते तु वन्ध्यापि लभेत् पुत्रांश्चिरायुषः प्रादर्वाचं यमाश्वदलसम्पुटकम् जलम् अष्टोत्तरशतम् जप्तम् मासम् पुत्रार्भिनी पिबेद सर्वलक्षणसम्पन्नं वन्ध्यापि लभदे सुतं जित्वा कृत्यां काशिराजप्रेषितां च निजारिणः तेजः सा तस्य नगरं दहन्तं भावयन्हरिं हुनेः सप्तदिनं मन्त्री कदाइश्च सर्षपैः कृत्या कर्तरमेवास्मै कुपिता नाशये ध्रुवं बदरी द्रुमसङ्कीर्णे स्थितं दिव्याश्रमे शुभे स्पृशन्दं करपद्माभ्यां खण्डाकर्णकले ध्यात्वैवं जुहूया लक्षं तिलैस्त्री मधुराप्लुतैः महापाप युतोप्येवं बोधो भवति तत्क्षणाद द्यूदासक्तौ रुक्मिबलौ द्वेषयन्तं हरिं स्मरन् जुहूया धिष्ठयोर्द्विष्ट्यै गुलिका गोमयोद्भवा नित्यं सहस्रं सप्ताहान्मिधो विद्वेषये धरीन् वर्षन्तं गरुडाजूढं ज्वलदग्निमुखैशरैः धावन्तं रिपु सङ्खादमनुधावदमच्युतं ज्ञात्वा सप्तसहस्रं तु जपेन्मन्द्रमनन्यधीः उच्चाटनं भवत्येव शत्रूणां सप्तभिर्दिनैः ध्यायन्युत्क्षिप्तवत्सं तु कभिद्धफलहारिणम् प्रजपेदयुधं शत्रुमुञ्चाडयति तत्क्षणाद आत्मानं कंसमधनं ध्यायन्मञ्चान्निपातितम् कंसात्मानं व्यकर्षन्तं गतासु तं जपेन्मनुम् रिपु जन्माक्ष रिपुजन्मक्ष वृक्षोत्तसमिभिरयुधं निशि जुहूयादेवमुग्रोऽपि सपत्नो निधनं व्रजे अथवा निम्बतैलाकृदैर्हुने धोभिरक्षजैः अयुधं नियतो रात्रौ मारयेदजिरादरीन्निशास्तिष्टदलव्योष कार्पासास्तिकरैर्निशी हुनेदेरण्डतैलाकृतैः श्मशाने रिपुशान्तये न शस्तं मारणं कर्मा कुर्याचेदयुतं हुनेद पायसार् पायसैर्वा हुने, हुने तावच्छान्तये शान्तमानसः पारिजादहरं कृष्णं ध्यायं लक्ष्म जपेन्मनुं सर्वत्रैव जयस्तस्य न कदापि पराजयः व्याख्यामुद्राकरं कृष्णं रथस्तं भावयञ्जपेद् पार्थे दिशन्तं गीतार्थं धर्म हृद्यैः सुमानवः पालाशपुष्पैर्मध्वकृतैर्लक्ष्यं विद्याप्तये हुनेत राष्ट्र पूर्ग्रामवस्तूनां शरीरस्याविरक्षणे विश्वरूपधरो प्रोद्यभानुकोडिसमप्रभम् अग्रिक्षोमात्मकं कृष्णं ध्रुतचामीकरभ्रमम् अर्काग्निद्योदितास्याङ्घ्रिपङ्कजं दिव्यभूषणं नानायुधरं प्राप्तं विश्वाकाशावकाशकं ध्यात्वा लक्ष जपेन्मन्त्रं रक्षणाय समाहितः रक्तैर्वन्यप्रसूनाैर्यो दिनादौ पूजये पूजयेद्धरिं दिनमध्योक्तविधिना जपे दष्टोत्तरं शतं सहस्रमण्डलान्मन्त्री वशयेन्मुखरान् द्विजान् जातिपुष्पैः क्षत्रियांश्च गोपवेषधरं स्मरन् ध्यायन् क्रीडारदं कृष्णं रक्तैरश्वारिपुष्पकैः वश्ये द्वैष्यजातीयान् शूद्रान् नीलोत्पलैस्मरन् नृत्यरदं श्वेतपुष्पैः साज्यैश्च तण्डुलैः हुत्वान्नहं सप्तदिनं भस्मभाले च मूर्धनीन् निवाशयेत् कान्तां सापि तद्वत्पतिं ध्रुवं ताम्बूलं कुसुमं वा सोऽञ्जनं चन्दनमेव च सहस्रं मनुना जप्तं दद्याद्यस्मै नराय च सो चिरादेशभजगः सपुत्र बान्धवः वृन्दारण्यस्थितं ध्यायन् वल्लवीसंयुदं हरिं अपामार्गसमिद्भिस्तु हुत्वाद् वशये जगत् सम्प्राप्य सद्गुरो दीक्षां कृष्णं यो विधिना मुना अर्चयेद्वैष्णवश्रेष्ठ सौष्ठसिद्धीश्वरो भवेद् तस्य दर्शनमात्रेण वादिनो निष्प्रभा स्मृताः वश्येत् सरस्वतिवक्रे गृहे चापि सभासदः भुक्त्वा नानाविधन् भोगानन्दे विष्णुपदं व्रजेत् इति श्रीभगन्नारदीयपुराणे पूर्वभागे तृतीयपादे कृष्णमन्त्रनिरूपणं नामाशीतितमोऽध्यायः ओम्